मकंडेय पुराण अध्या मकंडेय उच द्रोणतनया पक्षिण्ञाभवसिह्य चले विध्ये तानुपस्व पृछ चिथ्य हर्षेवचनम श्रुवा मकंडेये जैमिनी जगाम जगामविन्ध्यशिखरं यत्र ते धर्मपक्षिणः तन्नगासन्नभूतश्च शुश्राटपठतां ध्वनिं श्रुत्वा च विस्मयाविष्टश्चिन्तयामास जैमिनिः स्थानसौष्ठवसम्पन्नं चिदश्वासमविश्रमम् विस्पष्टमपदोषञ्च पठ्यदे द्विजसत्तमैः वियोनिमपि सम्प्राप्तानेदान् मुनिकुमारकान् चित्रमेदखमन्ये न जहादि सरस्वती बन्धुवर्गस्तथा मित्रं यच्चेष्टमपरं गृहे त्यक्त्वा गच्छति तत्सर्वं न जहादि सरस्वती इति सञ्चिन्तयन्नेव विवेश गिरिकन्दरं प्रविश्य जदर्शासौ द्विजान् पठतस्तान् समालोक्य मुखदोषविवर्जितान् शोधशोकेन हर्षेण सर्वानेवाभ्यभाषत स्वस्त्यस्तु वो द्विजश्रेष्ठा जैमिनि मां निबोधत व्यासशिष्यमनुप्राप्तं भवतां दर्शनोत्सुकं मन्युर्न कर्तव्यो यत् मन्युना पित्रादीवमन्युना शक्ताखगत्वमापन्ना सर्वथादिष्टमेव तत् स्वीदद्रव्ये कुले के जिजाधालमनस्विनः द्रव्यनाशे द्विजेन्द्रास्थे शबरेण सुसान्द्विताः दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे पादयित्वा च पात्यन्ते त एव तपसः क्षयाद् यददृष्टं सुबहुशो विपरीतं तथा मया भावाभाव समुच्छेदैरजस्रं व्याकुलं जगद इति सञ्चिन्त्य मनसा न शोगं कर्तुमर्हथ ज्ञानस्य फलमेदावच्छोगहर्षैरदृष्यदा तदस्थे जैमिनिम् सर्वे पाद्यार्ख्याभ्यामपूजयन् अनामयञ्च पप्रत्युःप्रणिपत्य महामुनिम् अथोजु खगमाः सर्वे व्यासशिष्यं तपोनिधिं सुखोपविष्टं विश्रान्तं पक्षानिल पक्षिण ऊचुः अद्य न सफलं जन्म जीवितञ्च सुजीवितं यत्पश्यामः सुरैर्वन्द्यं तव पादाम्बुजद्वयम् पितृकोपाग्निरुद्भूतो यो नो देहेषु वर्तते सोऽध्यशान्तिं गतो विप्र युष्मद्दर्शनवारिणा कच्चित्ते कुशलं ब्रह्मन्नाश्रमे मृगपक्षिषु वृक्षेश्वधलता गुल्मत्वक्सारतृणजादिषु अथवा नैतदुक्तं हि सम्यगस्माभिराधृतैः भवदा सङ्गमो येषां तेषामकुशलं कुतः प्रसादं च कुरुष्वात्र ब्रूह्यागमनकारणं देवानामिव संसर्गो भवदोऽभ्युदयो महान् केनास्मद्भाग्यगुरुणा आनीतो दृष्टिगोचरं जैमिनिरुवाच श्रूयतां द्विजशार्धूलाकारणं येन कन्तरं विन्ध्यस्येहागदो रम्यं रेवा वारिकणोक्षितं सन्देहान् भारते मार्कण्डेयं महात्मानं पूर्वं भृगुकुलोद्वहं तमहं पृष्टवान्प्राप्य प्राप्य प्रति भरदं च पृष्टो मया प्राह सन्धिविन्ध्ये महाचले द्रोणपुत्रा महात्मानस्ते वक्ष्मन्द्यर्थविष्ठरम् तद्वाक्ययोधितश्चेममागतोऽहं महागिरिं तच्छृणुध्वमशेषेण श्रुत्वा व्याख्यातुमर्हथ पक्षिण ऊचुः विषये सदि वक्ष्यामो निर्विशङ्गशृणुष्व कथं तन्न वदिष्यामो यदस्मद्बुद्धिगोचरम् चतुष्वपि हि वेदेषु धर्मशास्त्रेषु चैव हि समस्तेषु तथाङ्गेषु यच्चान्यद्वेदसंमिदं यदेषु गोचरोऽस्मादं बुद्धेर्ब्राह्मणसत्तमप्रतिज्ञान्दुसमारोढुं तथापि न हि शक्नुमः तस्माद्वदस्वश्रब्धं संदिग्धं यद्विभारते वक्ष्यामस्तवधर्मज्ञ न चेन्मोहो भविष्यदि जैमिनिरुवाच सन्दिग्धा निह वस्तूनि भारतं प्रदियानि मे शृणुध्वममलास्ता निःश्रुत्वा व्याख्यातुमर्हथ कस्मान्मानुषदां प्राप्तो निर्गुणोऽपि जनार्दनः वासुदेवोऽखिलाधारः सर्वकारणकारणं कस्माच्च पाण्डुपुत्राणामेकास्साध्रुपदात्मजा पञ्चानां सुमाहनत्र संशयः भेषजं ब्रह्महत्याया बलदेवो महाबलः तीर्थयात्रा तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः कथं च द्रौपदेयास्ते कृदधारा महारथाः पाण्डुनाथा महात्मानो वधमापुरनाधवत् एतत् सर्वं कथ्यदा मे सन्दिग्धं भारदम्प्रति कृतार्थोऽहं सुखं येन गच्छेयं निजमाश्रमं पक्षिण ऊचुः नमस्कृत्यसुरेशाय सुरेशाय विष्णवे प्रभविष्णवे पुरुषाय प्रमेयाय शाश्वताय व्ययाय च चा। चतुर्व्यूहात्मने तस्मै त्रिगुणाय गुणाय च वरिष्ठाय गरिष्ठाय वरिष्याय मृताय च यस्मादनुतरं नास्ति यस्मान्नास्ति बृहत्तरम् येन विश्वमिदं व्याप्तमजेन जगदाधिना विलक्षणं वदन्ति यत्सृष्टमिदं तथैवान्ते च संहृतं ब्रह्मणे चाधिदेवाय नमस्कृत्य समाधिना ऋक्सामान्युक् गिरन्क् पुनाजग प्रणिपत तथे शनित प्रवक्षामो मदं मो मदत्म व्यास्यद्भुतकम येन मुद्दिश्य प्रकडी धर्माध्याकीकता आपो नारायणी प्रोक्ता मुनिस्तर्शि सर्वं व्याप्य सदेव भगवान्प्यनायणों विभु चतुर्थ ब्रह्मन् सगुणो निर्गुणस्तथा एका मूर्तिरनिर्देश्या शुक्लां पश्यन्ति तां बुधाः ज्वालामालोपरुद्धाङ्गी निष्ठा निष्ठासा योगिनां परा दूरस्था चान्तिकस्था च चा। विज्ञेया सा वासुदेवा वसुदेवाभिधस निर्म्यर्णयस्त न भावा कल्पनाम अस्वदाशु सुप्रतिकू द्वितीया पृथिवी मोद्रुघ्ना शेषाख्या धारयत्यधः धा, तामसीसा समाख्याता तिर्यक्त्वं समुपाश्रिता तृतीया कर्म कुरुते प्रजापालनतत्परा सत्त्वोदृक्ता दुःसाज्ञेया धर्मसंस्थानकारिणी चतुर्थोज्जलमध्यस्था सेदे पन्नगतल्पगा रज्जस्तस्या गुणः सर्गं सा करोति सदैव हि या तृतीया प्रजापालनतत्परा साधुधर्मव्यवस्थानं करोति भुवि प्रोद्धूतानसुरान्हन्दिधर्मविच्छित्तिकारिणः पादिदेवान् सधश्चान्यान् धर्मरक्षापरायणान् यदा यदा हि धर्मस्य ग्लानिर्भवति जैमिने अभ्युद्धानमधर्मस्य तदात्मानं सृजत्यसौ भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च एकया दंष्ट्रयोत्खाता नलिनी वसुन्धरा कृत्वा नृसिंहरूपं च हिरण्यकशिपुर्हतः विप्रचित्तिमुखाश्चान्ये दानवा विनिपादिताः वामनादींस्तथैवान्यान्न सङ्ख्यादुमिहोत्सहे अवताराश्च तस्येह माधुरः साम्प्रतं त्वयम् इति सा सात्विकी मूर्तिरवतारान् करोति वै प्रद्युम्नेति च साख्यादा रक्षाकर्मण्यवस्थिता देवत्वेधमनुष्येत्वे तिर्यज्ञो नौजसंस्थिता गृह्णादि तत्स्वभावं च वासुदेवेच्छया सदा इत्येतत्ते समाख्यादं कृतकृत्योऽपि यत्प्रभुः मानुषत्वं गदो विष्णुशृणुष्वास्योत्तरं पुनः श्री यीमार्कंडेयपुराणे चतुर्व्यूहता द्वितय ओम।